नमस्कारः सर्वेभ्यः अस्माकं द्वितीयगणन्यायवर्गे भवतां सर्वेषां स्वागतम् अस्माकं चर्च्यमानः हा, विषयः अस्ति पुनः भेदः पृथक्त्वं च तत्र करपत्रमस्ति संयोगस्य प्रसङ्गे किञ्चित् तर्हि गते सप्ताहे गते वर्गे यत् गत पठितं तत् आधारीकृत्य आर्थिभगिन्याः उपस्थापनं भविष्यति कृपया आर्थिभगिनी धन्यवाद महोदय नमस्वे अद वह युत युत अयुत युत सिद्ध अयुत सम्ति व्याप्यव्यापकुक् किुत पृथक सिद्धि पृथक् अवस्थित अर्थ अस्सी भूतलघटो युत सिद्धि युत सिद्ध्यो द्रव्यो द्रव्यो संयोग कचि द्रव्यवय युत कुयुसी अयुसीधे द्वो द्रव्यो मध्ये एकक्रव्य नाशपर्यत तद्रव्यं अव्यम आश्रिविषं ते द्रव्ये अयुसीदे घट क्रव्यवयुद्ध यं घट से नाश नावत्म कपाल आश्रि ठति कटम ईदश संबंध है अयुसीद तथा एव यवत्म पटं ठती तवत्म भूतल घटयोहो भवति भूतलघटो युद्धसदि युद्ध द्रव्यो संयोग अयुसीद द्रव्यो संयोगः कदापि न भवति यदा पदार्थद्वयं भिन्नदेशे सन्ति तर्हि तयो आं महोदय श्रूयते भवान् श्रोतुं न शक्नोति वा आं महोदय अहं तु अस्मि श्रूयते महोदय श्रूयते पूर्व निमश अग्रेस भूतलघटो युत सिद्धि युत सिद्धो द्रव्यो संयोग अयुसीधो द्रव्यो संयोग कदा न यदा पदार्थदय भिन्न सी तह ते युत पर घटक शाखा वृक्ष एक सी तरी तर यदा नद कदा एक द्रव्य संयोग अ्रव्य सह ते द्रव्ये युत सिद्धे अवयव अवयवी भाव आपन्नो द्रव्यो अयुक्सीम यहाट कपाललम अनाश्रि नावत्म पटं ठतीपर्यम तंतनाश्रिवती अवय अवयवभा आपन्नो द्रव्यो अयुत यवत्पर्य पट अश्यवस्थ तंतून आश्रि ति अनश्यत अवस्थम विनाशम अवनश्य अतिशत्र अवनश्य अवस्थम समस्तपद अवनश्यति अवस्था अवनश्य अवस्था अवनश्यदस्था यर्मण तत् तथा सै अवनश्य अवस्थति क्रिया विशेषणस्ती अत द्वितियावचन एक नपुंसक आगछति यहां ज्ञातव भूतलघटो युत सिद्धि युतो द्रव्यो संयोग ना अयुसो द्रव्यो संयोग युतो द्रव्यो संयोग अयुसीद द्रव्यो संयोग कदा नद कदा एक द्रव्य संयोग अन्य द्रव्य द्रव्ये युत सिद्धे द्वो द्रव्यो मध्य घट ठतीवत्म भूतलम आश्रि ठती निस्तक उत्पीठि तदापी उत्पीठिका आश्रिविष्ट नियम अतक उत्पीठिका युत सिद्ध अस्तक स्वीयानी पत्र अवलब्य ठतीपर्यत अतक तत्पाण अयुसीधत्व अग तगंब अयुसीधोस न संबंध संभव समयसंबंध अयुसीधो मध्ये भेद कमवायस द्वो संबंध अस्ुत सिद्ध द्वयोः मध्ये सम्बन्धः एक एव लिखितवती किमस्ति अयुधसिद्धत्वम् अयुधम् इति स्वभावः इति अस्ति खलु अयुधसिद्धत्वम् इति स्वभावः अस्ति सम्बन्धः एव लिखितवती समवायः इति सम्बन्धः समीचीनं समवाय समवाये संबंध अस्त अयुसीधयो स्वभा अस्त ययुसीधवायवायसंबंध तयत सिद्ध यप्यव्यापक अस्व्याच्य अयुसीद्ध्रव्यगुण द्रव्यक्रिय मध्ये जातिव्यक्धे पर्माणु विशेषो इधं यूम त्र त वह अप्यव्यापक अस्त वहूमे यप्यव्यापक अस्त तुचि कार्यकार अस्टा अस्ट नूम व्याप्य यूनदेश अपक है ये अशवृत्ति सह व्यापक धूम से कारण वह न्यूनदेश वा धूम सप्तस्थलेश अस् यत्र यत्र धूमः तत्र तत्र वह्निः परन्तु यत्र यत्र वह्नि तत्र तत्र धूमः इति नास्ति तदर्थं वह्निधूमयोः समव्याप्तिः नास्ति एकमुखिनी व्याप्ति एव अस्ति तत्र यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानं विविपरीतदिशि यदि गच्छामः चेत् यत्र यत्र तत्र शक्यते यम त्र आत्म शक्य अत आत्मजान सकतौ अयुत अस्ति द्रव्ये अवयव अवयवी भाव आपन्नो द्रव्यो अयुसिद्ध तत्र, त्र अयुसिधपनो द्रव्यो परो पर नया दृष्टि आपनोर द्रव्यो परस्परसंग्रीय कपाल अन के संयोग भर्ती परंतु स्वयं कपाल सह संयोग संयोग संयोग भर्ती तथा एव तन्तोः अन्येन सह संयोगः साह शक्यते न तु स्वस्य पटेन सह इति एव अस्ति महोदय बहु समीचीनमस्ति इदानीं श्रूयते वा आं श्रूयते महोदय अस्तु एकः प्रश्नः अस्ति तत्र पुस्तकं कुत्र आश्रितः अस्ति आश्रितम् अस्ति उत, उत्पीठिकायाम् अस्ति पुस्तकम् हा एतत् संयोगः अस्ति तथा तथा तदा भवति पुस्तकं स्वस्वभावेन कुत्र आश्रितः अस्ति आश्रितमस्ति पत्राणि पत्रेषु खलु स्वपत्रेषु तत्र कीदृशः सम्बन्धः पुस्तकपत्रयोः समवायसम्बन्धः समीचीनम् इति अस्ति अन्यत् सर्वं समीचीनमुक्तम् एव एकं वदामि तत्र मया उक्तम। यत् ये द्रव्ये समानदेशे न स्तः तयोः संयोगः सम्भवति इति लौकिक अनुभवः तत्र न्यायरीत्या तथा प्रायः न उच्यते इति मनसि भवेत् स्वस्य अब्सर्वेशन् hmm? अस्ति तत् तत्र नैयायिकरीत्या विभिन्नरीत्या उच्यते तदग्रे पश्यामः केवलं मनसि भवेत् कदाचित् कालसम्बन्धः कथं भवति तत्र प्रश्नः उदेति तत्र साक्षात् देशव्याप्तिः इति कुत्रचित् नास्ति खलु इत्यपि स्थितिः अस्ति किन्तु सामान्य अनुभवेन पदार्थद्वयमस्ति प्रत्यक्षेन तयोः संयोगः अस्ति तर्हि भिन्नदेशे संस्तः सामान्यलौकिक अब्जर्वेशन् अस्ति अति इति मनसि भवेत् रिगरस् इति नास्ति हा किं सामान्य सामान्य अनुभवः अस्ति अपि च वह्नि अस्य धूमः अस्ति वह्नेः अधिकदेशवृत्तित्वं धूमस्य न्यूनदेशवृत्तित्वं तर्हि किमपि उदाहरणे मया मया उक्तं यत् दशस्थलेषु अग्निः अस्ति चेत् दशस्थलेषु अपि धूमः भवेत् इति न नियमः धूमा कुत्रचित् वह्निः अस्ति यत्र धूमो नास्ति इति स्थितिः अपि अस्ति तेन वह्नेः न्यूनदेशवृत्तित्वं भवितुम् अर्हति इति वार्ता उदाहरण उदाहरणत्वेन मया उक्तं सप्तस्थलेषु भवतु धूमो अस्ति स्थलत्रये धूमो नास्ति इति केवलम् उदाहरणेन इति स्पष्टमस्ति खलु अस्तु समीचीनम् इदानीम् अग्रिम विषयः किञ्चित् सूक्ष्मः अस्ति तर्हि मन्दं मन्दं किञ्चित् गच्छेम यद् भगिन्या उक्तं तस्मिन् विषये प्रश्न कस्यापि अस्तु तर्हि गते वर्गे अन्ते चन्द्रमती भगिन्या एकः प्रश्नः पृष्टः इति तत्र चषकपात्रम् उदाहरणमस्ति खलु तत्र युतसिद्धिः अस्ति वा अयुतसिद्धिः अस्ति वा इति तत्र का वार्ता का का गतिः तस्य इति प्रश्नः भगिन्या स्थापितः स्मरति सर्वे तत्र पश्यतु चषकजलं चषकजलं चषकजलानि चषकात् जलं बृहत्पात्रे स्थाप्यते अनेन चषकजलस्य परस्पर अपरचषकस्य जल जलेन सह संयोगः अस्ति किन्तु चषकजलानि बृहत्पात्रजलं प्रति समवायिकारणानि इति उक्तम् hmm? uh, करपत्रे यथा कपालद्वयसंयोगः घटं uh, प्रति कारणं तथा चषकजलपरस्परसंयोगः बृहत्पात्रजलं प्रति कारणम् अत्र तर्हि चषकजलं बृहत्पात्रजलस्य अवयवः तर्हि तयोः अयुतसिद्धिः किमर्थं जलस्य पृथक् जलं पृथक् कर्तुं शक्नुमः किन्तु पृथक् कारणेन पात्रजलस्य नाशः भवति खलु पात्रजलं यदा पात्रजलं स्वीकृत्य भिन्नेषु चषकेषु स्थापयामः तत्र पात्रजलस्य का स्थितिः इतोपि नास्ति खलु पात्रजलं नश्यति पात्रजलं नास्ति इदानीं पात्र अस्ति स्पष्टमस्ति हरि ओम् किन्तु एक दश चषक चषकेषु वस्तितं जलम् एकत्र स्थापयति तत्रतः एकं चषकं जलं अन्यत्र स्थापयति चेत् तत्र पात्रे जलस्य नाशं न्यूनं भवति नाश्यं किमपि भवति वा नाशः इत्युक्ते डिस्ट्रक्षन् तस्य स्थितिः भिन्ना अस्ति खलु पूर्वं okay. दशच दशनिमित्तं दशचषकनिमित्तं दशचषकपरिमितं जलम् आसीत् इदानीं किञ्चित् न्यूनता जाता खलु इदानीं जलं समानं नास्ति न्यूनं जातं बृहत्पात्रे तर्हि तस्य एकविधः नाशः नाशः इत्युक्ते स्थितिपरिवर्तनम् इति अस्ति तत्र समवायसम्बन्धः समवायकारणानि इति उक्तं खलु करपत्रे चषकजलं पात्रजलं प्रति समवायिकारणम् इति अधीतमस्ति खलु अस्ति तृतीयपुटे अस्ति वा तृतीयपुटे अस्ति यथा कपालघट भवति तथैव महोदय हा यथा कपालद्वयसंयोगः असमवायिकारणमस्ति तथा परस्परजलचषकजलसंयोगः बृहत्पात्रजलं प्रति असमवायिकारणं जलं समवायिकारणं जलसंयोगः असमवायिकारणम् इति वक्तुं शक्नुमः साधु अस्ति वा चन्द्रमती भगिनी स्पष्टमस्ति इतोपि प्रश्नः अस्ति वा अस्तु अग्रे शरेम नीलभगिनी पत पठति वा अग्रे इतोपि एकः विषयः अस्ति समव्याप्तिः इत्युक्ते दिशि दिश दिश किं वदतु खलु <laughs> एकस्मिन् दिशि अपि व्याप्तिः अस्ति अपरस्मिन् दिशि अपि व्याप्तिः विपरीतदिशि अपि व्याप्तिः अस्ति यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानं यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इति कः व्यापकः द्वौ व्यापकौ द्वौ व्याप्यौ तत्र समव्याप्तिः इति मनसि भवेत् अपि च सर्वत्र यत्र व्याप् अस्ति तत्र कारणकार्यकारणभावः अस्ति न नियमः कुत्रचित् नियमः कार्यकारणभावः अपि अस्ति कुत्रचित् तथा नास्ति वह्निधूमस्थल स्थले कार्यकारणभावः अपि अस्ति व्याप्तिः अपि अस्ति समव्याप्तिः नास्ति आत्मत्वं ज्ञानं तत्र तत्र कारणकारभावः अपि अस्ति किन्तु समव्याप्तिः अपि अस्ति कुत्रचित् तथा नास्ति चलु अस्तु तर्हि नीलं भगिनी चतुर्थे पञ्चमे पुटे तृतीयपरिचय ततः आरभ्य महोदय आहत्य द्रव्ये अवयव अवयविभाव आपणयोः एव द्रव्योः द्वयोः द्रव्योः द्वयोः द्रव्ययोः अयुत्यसिद्धत्वम् भवति तत्र अयुत्यसिद्धत्वम् सिद्धत्व आपणयोः द्रव्ययोः परस्परसंयोगः न भवति युतसिद्धत्व सिद्धत्व आपणयोः एव द्रव्ययोः परस्परसंयोगः स्वीक्रियते इत्युक्ते कपालस्य अन्येन केनापि सः संयोगः भवितुम् अर्हति न तु स्वस्य कपालस्य घटेन सह तन्तोः अन्येन सह संयोगः शक्यते न तु स्वस्य पटेन सह इति इदानीं निश्चितम् पूर्वं यत् तदादारेन तदा तदाधारेण एतं नियमम् अङ्गीकुर्मः यत्र द्वयोः अत्र वदति यत्र द्वयोः द्रव्ययोः तत्र अवयव अवयवी तादृशभावः अस्ति तत्र तादृश द्वयोः द्रव्ययोः तत्र अयुत्तसिद्धत्वम् अस्ति इति अस्माभिः दृष्टम् अतः तत्र अयुत्तसिद्धत्व द्रव्ययोः तत्र परस्परसंयोगः न भवति तत्र संयोगः एकम् अन्यस्य आश्रित्य अस्ति तिष्ठति अतः तत्र तादृशद्रव्ययोः संयोगः इति न भवति अनन्तरं वदति युतसिद्धत्व द्वयोः द्रव्ययोः यदा तत्र युतसिद्धिः अस्ति तदा एव तत्र परस्परसंयोगः न्यायशास्त्रे स्वीक्रियते इत्युक्ते यदा तत्र कपालः अपि च घटः अस्ति कपालः घटः तत्र द्वे द्रव्य द्रव्ये तयोः अवयव अवयवी भावः अस्ति अतः तत्र संयोगः तयोः न भवितुं शक्नोति परन्तु यः कपालः अस्ति तस्य भिन्नद्रव्य भिन्न Uh, कोऽपि भिन्नघटम् अस्ति चेत् कोऽपि भिन्नकपालः अस्ति चेत् भिन्नद्रव्यस्य सः तस्य संयोगः भवितुम् अर्हति परन्तु स्वस्य घटस्य सः तत्र तस्य संयोगः न भव कदापि न भवितुं शक्नोति तथैव तत्र पटतन्तु तन्तोः तन्तुः अपि च यः पटः तयोः अपि अवयव अवयवीभावः अस्ति अतः तत्रापि संयोगः न भवितुं शक्नोति परन्तु अपरस्मिन् पटे सः तस्य संयोगः भवितुं शक्नोति स्वस्य पटेन सह न भवितुं शक्नोति इदानीम् अत्र अस्माभिः एतत् निश्चितम् यत्र अयुतसिद्धिः अस्ति तत्र द्रव्ययोः ययोः द्रव्ययोः अयुतसिद्धत्वम् तयोः तत्र संयोगः न भवितुं शक्नोति इति अस्मिन् परिच्छेदे लिखितम् अग्रे अग्रे लिखितम् इदानीं कौ युतसिद्धौ इति प्रश्न प्रश्नः युतसिद्धौ अस्तु पृथक् आश्र आश्रय आश्रितौ शरीरं पुस्तकं तयोः संयोगः <laughs> भवति त्वौ दौ इति सिद्धौ तयोः स्वभावः कीदृशः इत्युक्ते शरीरम् पुस्तकम् च उभे द्वे द्रव्ये पृथक आश्रय आश्रय आश्रिते भवतः मम शरीरं स्वस्य अवयवान् आश्रित्यः तिष्ठति पुस्तकम् तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति अतः शरीरं पुस्तकं च पृथक् आश्रय आश्रितौ आश्रितौ विग्रहवाक्यम् एवं पृथक् च तौ आश्रयौ च पृथक् आश्रयौ इति कर्मदारीयसमासः पृथक् आश्रयौ आश्रितौ पृथक् आश्रय आश्रितौ इति द्वितीयतत्पुरुषसमासः कर्मदारी गर्भद्वितीया तत्पुरुषसमासः इदानीं तत्र प्रश्नः अस्ति युतसिद्धौ कौ द्रौ तत्र कयोः मध्ये तत्र युतसिद्धौ भवति उदाहरणमस्ति वदति पृथक् आश्रय आश्रितौ सो ययोः द्रव्ययोः आश्रयः पृथक् पृथक् अस्ति तयोः एव युतसिद्धौ तौ तौ एव युतसिद्धौ भवतः इदानीमस्ति शरीरम् अपि च पुस्तकं शरीरं शरीरं द्रव्यं पुस्तकम् अपि द्रव्यं वदति तौ द्वौ युतसिद्धौ किमर्थं तयोः स्वभावः अस्ति शरीरं पुस्तक पृथक्ति शरीरस्य आश्रयः स्वस्य ये तत्र अङ्गानि सन्ति त तत्र अस्ति शरीरम् स्वस्य अवयवान् आश्रित्यः तिष्ठति तथैव पुस्तकं तत्र यानि पृष्ठानि सन्ति स्व स्वीयानि पृष्ठानि आश्रित्य तिष्ठति अतः द्वयोः तत्र आधारः भिन्नम् अस्ति अधिकरणम् भिन्नम् अस्ति अतः लिखितं शरीरं पुस्तकं च पृथक् आश्रय आश्रितौ अत्र समस्तपदमस्ति पृथक् आश्रय आश्रितौ तत्र प्रथं पृथक् आश्रयः इत्युक्ते पृथक् च तौ आश्रयौ च तत्र कर्मदार्यसमासः पृथक् च तौ आश्रयौ पृथक् आश्रयौ अनन्तरम् कर्मधारी अनन्तरं तत्र पृथक् आश्रयौ आश्रितौ इति अस्ति तत्र द्वितीयतत्पुरुषसमासः अस्ति अतः कर्मधारीसमासस्य गर्भे तत् द्वितीयतत्पुरुषसमासः अस्ति <laughs> कर्मधारीसमासे महोदय तत्र समानं भवति वा तात्रे? कर्मधारीलः नीलः मेघः नीलं कमलं hmm. hmm? कमलमेव नीलं तथा अत्र hmm. पृथग् प्रतग, पृथक् च तौ आश्रयौ तस्मात् पृथगाश्रयौ इति एकभागः कर्मधारयभागः पृथगाश्रयौ तत् पृथगाश्रयौ आश्रितौ पदार्थद्वयं पृथगाश्रयौ आश्रितौ तस्मात् पृथुगाश्रये आश्रितौ इति द्वितीयतत्पुरुषसमासः यतो hmm. hmm? <laughs> हि आश्रयौ इति प्रथमाविभक्ति द्वितीयाविभक्ति समानमस्ति खलु रूपं द्विवचने hmm. ृथगाश्रयौ आश्रितौ तेन पृथगाश्रये आश्रितौ यथा शरीरं पुस्तकं भूतलं कटः तथा व्याकरण हा तस्य अपर वर्णनमस्ति कर्मधारय गर्भ द्वितीया तत्पुरुषसमासः इति ममपि व्याकरणज्ञानम् अधिकं नास्ति इति महोदय वदति तथा एव भवेत् तस्य नाम सञ्ज्ञा एवम् अस्ति स्पष्टमस्ति सर्वेषाम् अस्तु अग्रे हेग्डे महोदय पठति वा अग्रे अस्ति किम् पृथगाश्रय आश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं यतोहि तदेव न महोदय uh -huh, आश्रयौ इति वक्तव्यं यतोहि आश्रयद्वयमस्ति तस्य विशेषं विशेषणं च पृथक् पृथक् पृथक् अव्ययम् अतः तस्य द्वितीय द्वितीयान्तादिकं किमपि नास्ति कृतगाश्रय आश्रितौ द्विवचना द्विवचनान्तादिकं द्विवचनान्तादिकं किमपि नास्ति मृतगाश्रयौ आश्रितौ कृतगाश्रयौ इत्यत्र द्विवचने तृतीयाविभक्तौ तृतीयविभक्तौ पृथगाश्रयौ किमर्थं स्वीकृतमिति चेत् द्वितीया तत्पुरुषे द्वितीया श्रितातीतपतित गतात्यस्त प्राप् प्राप्तपन्नैः इति सूत्रेण उच्यते केन केन शब्देन द्वितीयः तत्पुरुषः भवति श्रित अतीतः पतितः गत अत्यस्य प्राप्तः आपन्न तत्र श्रितशब्दः अस्ति श्रितः इत्यनेन उपसर्गपूर्वकस्यापि ग्रहणम् अतः न केवलं श्रितशब्दः अपि तु आश्रितशब्दः अपि गृह्यते तथा कृष्णम् आश्रितः कृष्णाश्रितः इतः द्वितीया विभक्तिः किमर्थं प्रयोजितम् इति कृत्वा एतत् सूत्रं दत्तमस्ति द्वितीया एतत् शब्दः यत्र अस्ति तत्र द्वितीया आगच्छति श्रित अतीत पतितः गत तस्य प्राप्तापन्न अत्र श्रित इति अस्ति परन्तु उपसर्गपूर्वक अपि तद् द्वितीया भवति आश्रित इति तत्र तत्र एतद् अस्ति इति अस्ति महोदय हा वस्तुतः अत्र कोऽपि वक्तुं शक्नोति तस्मिन् आश्रितः इति कोऽपि चिन्तयति तथा नास्ति सप्तमी हा कृष्णे तथा नास्ति कृष्णम् आश्रितः इति वक्तव्यं भवति किन्तु कृष्णे आश्रितः तथैव अत्र पृथगाश्रयौ आश्रितः पदद्वयम् आश्रितौ इति पदद्वयम् आश्रितौ कर्मणि तादृशसूत्रमेव हा तदेव द्वितीय श्रित अतीत पतितगत अत्यस्त प्राप्त आपन्नैः द्वितीया इति सूत्रम् व्याकरणविषयः अस्ति आमामां आम, आम। किञ्चित् ज्ञानं तथापि भवेत् खलु अस्माकं स्पष्टमस्ति सर्वेषां तावदेव अस्ति कथं विग्रहवाक्यं प्राप्तम् इति तस्य विवरणमत्र अस्ति किमर्थं पृथगाश्रयौ आश्रितौ इति समीचीनमस्ति आम् आम् अग्रे पठतु यद्यपि पृथगा पृथगाश्रय आश्रितौ इति समासस्य कृते सप्तमी तत्पुरुषविधायकसूत्रं नास्ति सप्तमी षण्डै षण्डैः सूत्रेण शौण्डै शौण्डैः शौण्डादिगणे पठितानां शब्दानां सप्त सप्तमी तत्पुरुष अक्षे, अक्षे अक्ष अक्षेषु शौण्डः अक्षषौण्डः स्किल्ड् इण्डैस् अक्षधूर्तः कण्ङ्ग् इण्डैस् अक्षिकितव गेम्स्टर् इण्डैस् शौण्डादिगणे शौण्डः धूर्तः कितव व्याण्डप्रवीण संवित अन्तरः वनोतः वनान्तः पटुपण्डितकुशलचपलनिपुण किन्तु पृथगाश्रय आश्रितौ इति सप्तमीतत्पुरुषत्वेन प्रयोगे लभ्यते चेत् दोषः न स्यात् यतो हि सप्तमी शौण्ड इति सूत्रेण इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमीतत्पुरुषसमासः कृतः पृथगाश्रयोः आश्रितौ तथापि द्वितीयविभक्तौ सूत्र सूत्रमस्ति एव सूत्रमस्त्यैव अतः द्वितीयतत्पुरुषसमासः स्वीक्रियते पृथगाश्रय आश्रितौ अत्र सप्तमी प्रयोज्यमः चेत् किमपि दोषं नास्ति इति अत्र दत्तमस्मि परन्तु द्वितीयप्रयोज्यमस्ति परन्तु सप्तमी अपि वक्तुं शक्नुमः तदेव अस्ति तदेव अस्ति इति चिन्तयामि तत्र सप्तमी इति सूत्रेण एतत् भवति तत्र षौण्डादिगणे षौण्ड धूर्तकित व्याण्ड प्रवीण सहित अन्तरः पटुपण्डितकुशल चपल निपुण किन्तु पृथगाश्र आश्रित इति सप्तमीतृपुरुषेण प्रयोगे लभ्यते चेत् दोष न्यास यतो हि सप्तमी षण्डै षौण्डै इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमीतपुरुषः कृता एतत्र किमस्ति अत्र आश्रितशब्द नास्ति सप्तमी षौण्ड इति तत्र गणे परन्तु तादृश उदाहरणानि लभ्यन्ते यत्र गणे नास्ति चेदपि तत्र सप्तमी तत्पुरुष उपयुज्य उपयोगं कृतमस्ति अतः अत्रापि क्रियते चेत् कोपि नास्ति परन्तु अत्र द्वितीय सम द्वितीयभक्ति उपयोगमस्ति इति कृतम् इति सप्तमस्या विशेषसूत्रमस्ति श्रुतपदस्य तत् तद् उपयुज्य एवम् आगच्छति कृपया इदानीं युतसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् एतदेव द्वयोर्मध्ये द्वयोर्द्वयोर्मध्ये एकस्य नाशपर्यन्त तदन्त तदन्य तदन्यदाश्रित्य यदि तिष्ठति तर्हि अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते किन्तु एतत् विवरणमपि सङ्गच्छते तत्र पृथगाश्रयाश्रितौ यत्र यत्र सदत्वं वर्तते तत्र तत्र पृथगाश्रयत्वम् अत्र पुनः विषयम् आगच्छति अत्र अस्माकं पुरा पूर्वतनविषयः अत्र वितसिद्धत्वम् अहितसिद्धत्वम् इदानीं हितसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् एतदेव किं विवरणम् इत्युक्ते द्वयोर् द्वयोर्द्वयोर्मध्ये एव एकस्य नाशपर्यन्तं तदा तद् तदन्य दाश्रित्य यदि तिष्ठति यतः पूर्वम् उदाहरणं दृष्टं घटकपाल तर्हि अयुतसिद्धम् अत्र विद्याधर्म विवरणं किञ्चित् भिन्नरीत्या उच्यते किन्तु एतत् विवरणमपि सङ्गच्छते तत्र एतत् एकम् एकम् आश्रित्य अन्यं तिष्ठति इति विवरणं यतोहि तत्र भिन्नरीत्या दत्तमस्ति इत्यादि परन्तु एतदर्थं सङ्गच्छते अत्र पृथगाश्रय आश्रितौ यत्र यत्र इत सृद्धित्वं वर्तते तत्र तत्र पृथगाश्रय आश्रितम् अस्ति एव अत्र पृथगाश्रय आश्रितौ इत्युक्ते पदार्थद्वयोः आश्रयः भिन्नौ इति कर्तत्रे उक्तं विद्याचर्याम् एक द्रव्यद्वयोः मध्ये एकः नाशपर्यन्तम् अपरम् आश्रित्य तिष्ठति इति अस्ति तथापि तत्र दोषो नास्ति भिन्नरीत्या उक्तं तावदेव किञ्चित् इन, भिन्नरीत्या उक्तं परन्तु अर्थं समानमेव द्वयमपि इति अस्ति समीचीनम् अग्रे चन्द्रमति भगिनि स्पष्टमस्ति प्रश्नः अस्ति वा पृथ्श्रयाश्रम किे वृक्ष स्वयव स्थित पक्षी स्वयव पक्षी चित सिद्ध योग वृक्ष से आश्रय पृथक पक्षि च आश्रय पृथक वृक्ष से आश्रय पक्षि च आश्रय पर पृथक् इत्यस् इत्यस्मात् वृक्षः पक्षी च युधसिद्धौ अतः उप उत्पत्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः क्रियायाः पक्षिणः वृक्षस्य च संयोगे भवति एवं शरीरं तरुश्च स्व इति द्वितीयं उदाहरणम् हस्तक्रिया क्रियया हस्तसंयोगे संयोगः हस्ततरु हस्तक्रियया हस्ततरुसंयोगः तेन शरीरतरुसंयोगः इति हि स्थितम् तत्र पृथगाश्रथताशयाश्रितुम् किम् इति अत्र दत्तमस्ति एकम् उदाहरणं वृक्षः अस्ति वृक्षः स्व अवयवे स्थितः अस्ति अवयवेषु शाखासु शाखासु स्थितः अस्ति वृक्षः पक्षी स्व अवयवे च पक्षी तादृशं वृक्षः पक्षी च युद्धसिद्धौ वृक्षः पक्षी द्वयं पक्षी वृक्षे अस्ति चेत् युद्धसिद्धौ भव आश्रयः पक्षी वृक्ष अस्ति इति न लिखितमस्ति केवलं इति वार्ता वृक्षः पक्षी च इद इदस्य यतोहि वृक्षस्य आश्रयः पृथक् पक्षिणः च आश्रयः पृथक् अस्तु पृथक् पृथक् आश्रयः वृक्षस्य आश्रयः पक्षिणः च आश्रयः इति परस्परं पृथक् इत्यस्मात् वृक्षः पक्षी च युधसिद्धौ आश्रयः पक्षिणः आश्रयः पृथक् अस्ति वृक्षस्य आश्रयः पृथक् अस्ति अतः युधसिद्धौ इति वक्तुं शक्यते उत्पन्ना उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मदः संयोगः प्रश्न अस्ति उत्पन्नायाम् अस्ति कोट् मार्क्स् मध्ये अस्ति तद्विद्याचर्याम् अस्ति अस्तु उत्पन्नायां पक्षिणः पक्षिणी पुनः क्रियायां जायते पक्षिणी इति सप्तमी भवति वा उत्पन्नायां पक्षिणी समीचीनं पुनः क्रियायां जायते कर्मजः संयोगः सति सप्तमी पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः क्रियायाः पक्षिणः इत्युक्ते किम् उत्पन्नायाम् इत्युक्ते किम् उत्पन्नायां पक्षिणि क्रियायां कर्मजः संयोगः जायते इत्युक्ते उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः यथा अस्मिन् करपत्रे बहुपूर्वम् अस्माभिः दृष्टं शरीर किं कः संयोगः आसीत् शरीरपुस्तकसंयोगः हस्तपुस्तकयोः संयोगः हस्ते क्रिया अनेन हस्तपुस्तकयोः संयोगः क्रियया जातः खलु क्रियया कर्मजः समानार्थकं क्रियया संयोगः जातः यथा हस्ते विद्यमाना क्रिया विद्यमानया क्रियया हस्तपुस्तकयोः संयोगः जातः तथा एव पक्षिणी पक्षी किञ्चित् उड्डयनं कृत्वा वृक्षे उपविशति पक्षिणी क्रिया जाता तया क्रियया पक्षिवृक्षयोः संयोगः जातः इति अस्ति पक्षिणी क्रियायाम् उत्पन्नायां कर्मजः पक्षिवृक्षयोः संयोगः जायते यथा हस्ते विद्यमानया क्रियया हस्तपुस्तकयोः संयोगः जायते समानं स्पष्टमस्ति अस्तु अस्तु अग्रे क्रियायाः पक्ष, पक्षिणी उत्पन्नायां क्रियेयाम् अत्र संयोगः वृक्षपक्ष पक्षियोः संयोगः भवति क्रियायाः पक्षिणः वृक्षस्य च संयोगो भवति क्रिया पक्षिणः क्रियायाः संयोगेन वृक्षसंयोगः भवति क्रियायाः वाक् अस्मिन् वाक्ये क्रियायाः का विभक्तिः षष्टिभक्तिः अथवा पञ्चमी खलु पक्षिणः क्रियायाः तस्मात् वृक्षस्य च संयोग पक्षिणः वृक्षस्य च संयोगो भवति षष्टि भवितुम् अर्हति Hmm. Hmm. एवम् एवं शरीरं तरुश्च स्व अवयवे स्थितौ इति द्वितीयम् उदाहरणं शरीर, एवं शरीरं तरुः च स्व अवयवे स्थितौ तरुः स्व शरीरम् इति अत्र पक्षिणः शरीरं वा न शरीरं तरुः पशु भवतु अर्हति किमपि पक्षिणः शरीरं तरुः अपि स्व अवयवे स्थितौ द्वयमपि स्वस्य अवयवे स्थितौ इति द्वितीयम् उदाहरणं ततः हस्तक्रियया हस्ततरुसंयोगः हस्तक्रियया हस्ततरुसंयोगः वयं हस्तं वृषस्य स्पर्शनं करोति चेत् हस्तस्य हस्तक्रियया एव हस्ततरुसंयोगः भवति तेन च तेन च शरीरसंयोगः इति निष्ठितं शरीरतरुसंयोगः शरीरतरुसंयोगः इति अत्र पक्षिणः शरीरम् अस्ति हस्तः अस्ति मनुष्यशरीरम् तरु उपोस्पर्शनं करोति चेत् शरीर तरु उपो स्पर्शनं भवति अत्र किमस्ति इतः पूर्वं पठितं हस्ते विद्यमानया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः जातः स्मरति वा hmm. हस्ते हस्तक्रियया हस्तपुस्तकयोः संयोगः जातः किन्तु हस्तः शरीरस्य अवयवः अनेन संयोगजः शरीर शरीरपुस्तकसंयोगः अपि जातः इति करपत्रस्य आरम्भे पठितम् हस्तपुस्तकयोः कर्मजः संयोगः शरीरपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकसंयोगं प्रति हस्तपुस्तकसंयोगः कारणं तथा समीचीनं तथा अत्र अस्ति हस्तक्रिया हस्ततरुसंयोगः किन्तु हस्तः शरीरस्य अवयवः अनेन शरीरतरुसंयोगः संयोगजः इति स्थितिः तद् हस्ततरुसंयोगः कर्णजः शरीरतरुसंयोगः संयोगजः न संयोगजः संयोगज द्वितीयक्षणे क्रियया कर्मजः संयोगजः इति द्वितीयवार्ता द्वितीया वार्ता अस्ति प्रष्टमस्ति भेदः हु, कर्मजः संयोगज इदानीं हस्तपुस्तकयोः कथं भवति वदतु हस्तपुस्तकयोः कर्मजः संयोगः भवति शरीर पुस्तकयोः संयोगजः संयोगः सम्य, भवति स्पष्टमस्ति तदेव अत्र अग्रे पठतु कृपया अत्र प्रश्नः उदेति खडकपालयोः अवयवाः अपि भिन्नाः किल दृढ खडस्य अवयवौ द्वौ कपालौ कपालस्य च अवयवे द्वे कपालिके अनेन खडकपालयोः अपि पृथक्श्र आश्रयाश्रितत्वात् युगसिद्धत्वं स्यात् किन्तु वृक्षपक्षिणौ दु वृक्षपक्षिणोः स्थितिः यथा खडकपालयोः स्थितिः तथा नास्ति कडकपालयोः स्थित स्थित्यां किञ्चित् वैक् वाए, वैलक्षण्यं भवति वस्तुतः यत्र पृथक्ताश्रयाश्रित्वं वर्तते तत्र दय, दयोर द्वयोर द्वयोरवयव अवयवाः सर्वथा शार, भिन्ना भिन्नाः स्युः यथा पक्षिणः वृक्षस्य च अवयवाः निदरां भिन्नः तथा खडकपालयोः अवयवः भिन्नाः इति नास्ति खडकपालयोः स्थितौ परम्परया अवयव अवयव अवयव साम्य अवयवसाम्यं भिद्यते कपालः कपाल कपाल कपालिकाद्वय स्थितः द्वये स्थितः परम्परया खः अपि तत्रैव आश्रितः अनेन द्वयोः पृथगाश्रयाश्रित्वं नास्ति यस्मात् अनयोः द्वयोः युगसिद्धत्वं न तु युगसिद्धत्वम् ए एवं च निग निगमनम् इदं पृथग्श्रयाश्रि आस्रित्य आश्रित्योरेव युधसिद्ध सिध, युधसिद्धत्वेरेव मूर्ते मूर्तयोः जायते उभवविधसंयोगः हस्तवृक्षयोः हा। वास्तविकं कृतकाश्रयाश्रित्वम् इत्ये इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः संयोगः अत्र प्रश्नः उदेति घटकपालयोः अवयवाः अपि िन्नाः किल इति खडकपालयोः अवयवः खिन्ना खडस्य खडस्य अवयवौ द्वौ कपालस्य च अवयवे द्वे कपा कपालिके कपालस्य अवयवे द्वे कपालिके खडस्य द्वौ कपालौ कपालस्य द्वे कपालिके कपा कपालिका इति स्त्रीलिङ्गं कपालस्य कपालिका इति अस्ति कपालस्य अवयवः द्वे कपालिके कपालिका कपालिका द्वे कपालिके तर्हि घटस्य अवयवः कपालः नास्ति वा कपालः कपालिका कपालस्य अत्र घटः घटस्य अवयवः कपालद्वयं कपालः स्वयं तस्य अवयवः अस्ति एकः कपालस्य कपालक द्वयमस्ति कपालः कपालिकायां कपालिका इति कपालस्य अवयवः द्वे कपालिके तर्हि घटः कपालौ कपालः कपालिकायां कपालिके कपालिकयोः तर्हि द्वयोः पृथगाश्रय आश्रितत्वम् अस्ति खलु घटः कपाले कपालौ आश्रितः कपालयोः आश्रितः कपालः कपालिकयोः आश्रितः तर्हि पृथगाश्रयम् आश्रितत्वमस्ति तर्हि तयोः युद्धसिद्धत्वं स्यात् इति पूर्वपक्षी वदति अनेन कपालयोः अपि पृथक्श्रित्वं काशयाश्रित्वम् आश्रितोत् युद्धसिद्धं स्यात् किन्तु वृक्ष uh, पक्षिणोः स्थितिः यथा खडकपालयोः स्थितिः तथा नास्ति खडकपालयोः स्थित्यां किञ्चित् वैलक्षिण्यं भवति वस्तुतः यत्र पृथगाश्रयाश्रित्वं वर्तते तत्र दयोर अवयवाह सर्वदा भिन्नाः स्युः यत्र पृथगाश्रयाश्रित्वं वर्तते चेत् द्वयोः अवयवाः भिन्नाः तयोः द्वयोः यस्य पृथक् आश्रयतु वर्तते अत्र शरीरं तरुः अत्र भिन्न आश्रयितुं भिन्नं भवति सर्वथा भिन्नाः भवेयुः स्युः सर्वथा भिन्नाः स्युः यथा पक्षिणः वृक्षस्य च अवयवाः नितरा भिन्नः भिन्नाः पक्षिणः भिन्न अस्ति स्वस्यावयविनि भवति वृक्षः स्वस्य अवयविनि भवति तथा खडकपालयोः अवयवाः भिन्नाः इति नास्ति खडकपालयो खडकपालयोः अवयवः भिन्ना इति नास्ति खडकपालयोः स्थितौ परम्परया अवयवसाम्य साम्यं अवयवसाम्यं विद्यते खडकपालयोः कपालः कपाल कपालद्वये स्थितः कपालिकाद्वये कपालिकाद्वये स्थितः कपालः कपालिकाद्वये स्थितः परम्परया खडः अपि आश्रितः कपालिका द्वये खडः अपि परम्परया आश्रितः hmm. अनेन द्वयोः पृथकाश्रयाश्रित्वं नास्ति पृथकाश्रय आश्रितत्वं पृथकाश्रयाश्रितत्वं द्वयोः नास्ति यस्मात् अनयोः द्वयो द्वयोः ऐधसिद्धत्वं न तु विधसिद्धत्वम् कपाल कपालिका द्वयोः आश्रयत्वम् आयुधसिद्धम् अस्ति न युधसिद्ध समानः अस्ति एवं च निगमनम् इदं कृतकाश्रयाश्रित् कृतक कृतकाश्रयाश्रित्वरेव भूय युधसिद्ध युधसिद्ध्योरेव भूयः मु, अूर्तयोः मूर्तयोः जायते एवञ्च निगमनं पृथगाश्रय आश्रित्य रेवा आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभव उभयविधसमि उभयविधसंयोगः अत्र पृथक् मूर्त मूर्तद्रव्याणां संयोगः मूर्त इति चेत् मूर्तद्रव्यः एव मूर्तद्रव्य यस्मिन् येषु क्रिया भवति क्रिया सम्भवति ते मूर्तद्रव्य द्रव्याणि तेषाम् आश्रयः भिन्नः अस्ति पृथक् आश्रयाः भवन्ति तयोः पृथकाश्रय आस्थित्योरेव युधसिद्ध युधसिद्धयोरेव मूर्तयोः जायते उभयविधसंयो अत्र संयोगः एव युधसिद्धत्वेन एव भवति कारणमस्ति ते तेषाम् आश्रयः भिन्नः अस्ति कृतकाश्रय आश्रितुमस्ति च मूतद्रव्यं मूतद्रव्यं हस्त उदाहरणमस्ति हस्तवृक्षयोः वास्तविकं कृतकाश्रयाश्रितुम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः सं संयोगः हस्तस्य आश्रयः भिन्न शरीरमस्ति किन्तु वृक्षस्य आश्रयः तरुः तरुः अल वृषस्य व्यवेषु अस्ति अतः पृथक् आश्रय आश्रत्वम् अस्ति अतः द्वयो हस्तवृक्षयोः संयोगः कर्मजः भवति किन्तु शरीरवृक्षयोः संयोगः संयोगजः संयोगजः संयोगः भवति प्रष्टमस्ति अनिगमनम् इत्युक्ते सारांशः पर्यवसितम् अन्ततो गत्वा एवमस्ति ययोः प्रतिगाहं कृतवान् तयोः एव तौ तौ एव युतसिद्धौ तयोः एव मूर्तद्रव्ययोः उभयविधपरस्परसंयोगः उभयविध उभयविध क्षमिताम् उभयविध इत्युक्ते कर्मजः संयोगजः उभयविधसंयोगः किन्तु खडकपालिकादयोः संयोगः ऐरसिद्ध अस्ति अत्र आश्रयः समानम् एव आश्रयितुं नास्ति वा हा यद्यपि घटः कपालौ अस्ति कपालौ कपालौ अस्ति कपालौ आश्रितः कपालः कपालिकायां कपालिकायोः कपालिकयोः आश्रितः तथापि पृथग् नास्ति युतसिद्ध पृथक् आश्रयत्वम् आश्रय आश्रितत्वं नास्ति यतोहि परम्परया घटः कपाले कपालः कपालिकायाम् तर्हि परम्परया घटः अपि कपालिकायामेव अस्ति तर्हि अवसाम्यम् अस्ति समानता अस्ति परम्परया घटः अपि कपालिकायामेव कपालिकासु तर्हि संयोगः कर्मजः एव अत्र द्वयमपि न तत्र संयोगः न सम्भवति खलु अयुधसिद्धिः अस्ति घटकपालयोः संयोगः भवति ना, ना, ना, शिद्धी शिद्धी एक एक एक एक वा एकः संयोगः एव तादृशं नास्ति वा तदपि संयोगः एव नास्ति वा नयुधसिद्धिः इति इत्युक्ते एकः अपरस्मिन् आश्रितः तयोः न कदापि संयोगः सम्भवति ऐतसिद्धयोः संयोगः न सम्भवति इति नियमः अस्माभिः पठितं खलु तत्र संशयः अस्ति वा तद् संयोगः इति न वक्तुं शक्यते आश्रितः एव घटकपालयोः संयोगः न भवति कपालद्वयोः संयोगः भवति परस्पर किन्तु कपालघटकटयोः संयोगः न भवति अहं चिन्तितवती संयोगः जीवितम् आयुधसिद्धम् एकं युधसिद्धम् तादृशं भगिनी ययोः अयुतसिद्धिः तयोः संयोगः न सम्भवति यत्र समवायसम्बन्धः तत्र अयुतसिद्धिः यत्र युत युतसिद्धत्वं युतसिद्धिः तत्रैव संयोगः सम्भवति यहां घट भूतलम घट स्वयव आश्रि पुस्तक स्वयवेशटपुस्तको संयोग संभव घट पुस्तक युत सिद्धपदार्थ किंतु वृक्षा शाखा शरीर हस् घट कपल तरह समवायसम्बन्धः एव तौ अयुक्तसिद्धौ तयोः संयोगः न सम्भवति इति मूलविषयः इति स्पष्टमस्ति वा इदानीं स्पष्टम् सर्वेषाम् अङ्गीकारः अस्ति खलु सन्देहः अस्ति वा कस्यापि अस्तु अग्रे आर्ति जाने अधुना प्रश्न यदि परंपरया घटकपाल पृथ् आश्रय आश्रित यस्वो अयुत मध्ये संयोग न संभव त तदाधारेण सर्वेषाम् अपि सावयवद्रव्याणां परम्परया अंतिम अवयवः परमाणवः इति कृत्वा कस्यापि स अवयवद्रव्यस्य द्रव्यस्य आ पृथक् आश्रय आश्रितत्वं नास्ति इमानि च सर्वाणि स अवयवद्रव्याणि अयुतसिद्धानि इत्यस्मात् संयोगो न कुत्रापि सम्भवेत् तस्य उत्तरं किम् अधुना नूतनप्रश्नः वदति यदि परम्परया घट घटकपालयोः पृथक आश्रय आश्रितत्वं नास्ति यस्मात् द्वयोः अयुतसिद्धत्वं येन च द्वयोः मध्ये संयोगः न सम्भवति तर्हि तत् एव सर्वेषामपि स अवयवद्रव्याणां परम्परया अन्तिम अवयवः परमाणवः अस्ति इति कृत्वा कस्यापि यदि यदि घटकपालयोः पृथक् आश्रय आश्रय आश्रितत्वं नास्ति तथा एव तत्र अयुतसिद्धत्वं कथं नास्ति संयोगः न भवति अयुतसिद्धत्वम् अस्ति तत्र किन्तु समीचीनं किन्तु तत्र पृथगाश्रय आश्रितत्वं नास्ति घटः कपाले आश्रितः अस्ति खलु तर्हि तयोः पृथग् आश्रय आश्रितत्वं नास्ति अनेन अयुतसिद्धत्वम् तस्मात् अयुतसिद्धत्वम् इति पृथगाश्रय आश्रितत्वं तेन कारणेन अयुतसिद्धत्वं तस्मात् संयोगो न भवति इति क्रमः घटको पृथक आश्रय नास्ति आश्रित तस्मा अयुसुद तथा एव यदि सअवय द्रव्य द्रव्याण विषे तथा परंपरया अंतिम अवयव स अंतिम अवयव तो अंतिम अवयव परमाणव क्या स अवयद्रव्य पृथक् आश्रय आश्रितत्वं नास्ति इमानि च सर्वाणि स अवयवद्रव्याणि अयुतसिद्धानि इत्यस्मात् संयोगः कुत्र अपि न सम्भवेत् इति प्रश्नः प्रश्नः अस्ति तस्य उत्तरं किम् अस्ति इति समस्या सर्वैः अवगता महोदय स अवयवद्रव्याणाम् इत्युक्ते यस्य अवयवाः सन्ति हा इति हा स अवयव यस्य अवयवः अस्ति इदानीं पश्यतु मम पुरतः पुस्तकद्वयमस्ति एकं पुस्तकं वामभागे अस्ति अपरं पुस्तकं दक्षिणभागे अस्ति इति पुस्त तो द्वे पुस्तके भिन्ने अथवा न भिन... न भिन्न न भिन्नः भिन्ने अस्ति खलु किमर्थं भिन् भिन्नमिति वदामः एकपुस्तकं स्व अवयवेषु अस्ति अपरं पुस्तकं स्व अवयवेषु अस्ति स्वपत्रेषु स्वपत्रेषु तयोः अवयवाः भिन्नाः अनेन पदार्थौ भिन्नौ इति सामान्यरीत्या स्वीकुर्मः किन्तु अन्ततो गत्वा वामभागपुस्तकस्य अपि अन्तिम अवयवः परमाणवः दक्षिणभागपुस्तकस्य अपि अन्ततो गत्वा अवयवः परमाणवः तर्हि तयोः साम्यमस्ति खलु पुस्तक पुस्तक वामपुस्तकं स्वपरमाणुषु अस्ति दक्षिणपुस्तकं परमाणुषु अस्ति तर्हि समानम् आश्रितं समाश्रयः परमाणवः तर्हि तयोः ते अयुतसिद्धौ तर्हि पुस्तकद्वयोः संयोगः न सम्भवेत् न भवेत् इति अनुभवविरोधः अस्ति किन्तु कथम् इति प्रश्नं स्थापयति प्रश्नः बुद्धः इति अग्रे पठतु भगिनी घटारंभकमाणव अन्याटारंभक अन्या पार्थिवपरमा सी एस्पर भिन्ना प्रत्येक परमाणु भिन्ना अस घटना अवयवपरंपरा परमाणु व्यणुक त्यणुक चतरणुक इदार कपालि कपालल घटना द्रव्यजन्यपरंपरा वर्त परंपरा वर्तते, अस्य से परमाणव भिन्ना वर्तते, च भिन्ना वर्त पट से पृथक परंपरया परमाणव भिन्ना चुुं साम्ये परमाणु किल घटत्वं यद्यपि सर्वेषु घटेषु तथापि यह कोऽपि एको घटः सहच एका व्यक्तिः इति यथा तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः परमाण एव परमाणु परमाणुत्वम् एकं किन्तु परमाणुव्यक्त्ययः परस्परभिन्नाः अपि च याद अवयवरंपरया घट आरब्ध सांपरा पटसे अवयपर पटस अवयवपरंपरा परपरा भिन्ना घटारं घटारंभकपरव घट आरंभकमा अन पट आरंभक अन त्र भिन्नता अस्ट पटारकपरमाणव घटारक घटारंभक पार्थिवपरमाण तो सारी एक परस्पर भिन्ना कथम भिन्ना प्रत्येक परमाणु व्यक्ति भिन्ना अस्ट से अवयव परंपरा परमाणुणुक त्रणुक चतरणुक कपालिका कपाल अस्य घट घटस्य परमाणवः भिन्नाः वर्तन्ते पटस्य च पृथक् परम्परया परमाणवः भिन्नाः च परमाणुत्वेन तेषां साम्येपि परमाणुव्यक्तिर्भिन्ना किल परमाणुव्यक्ति इति सापि कन्सेप्ट् अस्ति अत्र एवमस्ति इत् मया उक्तम् एकं पुस्तकमस्ति वामभागे अपरं पुस्तकं दक्षिणभागे स्वपुस्तके भिन्ने इति कथं साधयामः तयोः अवयवाः भिन्नाः अनेन पदार्थद्वयं भिन्नम् एकः घटः अस्ति अपरा घटः अस्ति एतस्य घटस्य कपालद्वयं भिन्नः कपालद्वयं भिन्नं तत्र घटस्य कपालद्वयं भिन्नम् अनेन व्यक्तिभेदः अस्ति घटत्वं समानं किन्तु वामभागे एकः घटः दक्षिण भागे अपर घट दटद्व अस्तु आश्रया भिन्ना हा, अवयवा हा भिन्ना यिन्ना पदाथ भिन्नौट सांतु यहां साम्यं भवि परमाणु सर्वे परमाणव सना चिन्तनमस्ति चेत् तथा नास्ति परमाणुषु विशेषः इति एकः पदार्थः अस्ति तत्र सप्तपदार्थाः द्रव्यगुणकर्म किं समवाय सामान्यविशेषसमवायः अभावः mm. आसीत् खलु mm. तत् सामान्यम् इति जातिः विशेषः इति पैलक्षण्यं युनीक्नेस् इति विशेषः इति एकः पदार्थः अस्ति येन परमाणुद्वयं परस्परो भिन्नौ इति खलु परमाणुस्थले किञ्चित् विशेषः अस्ति सामान्यं जातिः सामान्यस्थलेषु अस्ति घटत्वम् इति जातिः पटत्वं जातिः पुस्तकत्वं जातिः परमाणुषु विशेषः इति एकः प्रापर्टि पदार्थः परमाणुना परन्तु परमाणुव्यक्ते भिन्ना किल विशेष इति एकं पदार्थः विशेष इति एकं पदा एकः पदार्थः अस्ति तेन कारणेन परमाणुद्रयद्वयं परस्परभिन्नम् आ, यह एको एका घटे सर्व घटेश योपि एकको घट स व्यक्ति यहां परमाणु पार्थिवपरमाण परमाणव एवु परमाणु कित व्यक्तय परस्पर भिन्ना परमाणु परमाणु एका जाति इति वक्तुं शक्नुमः वा आमां परमाणुत्वमिति जाति वा जाति जातः जाति अस्ति परमाणुत्वयः तत्र विशेष विशेषः इति एकं पदार्थम् आगच्छति यथा घटः अनन्ताः सन्ति विश् विश्वे घटत्वम् एकं किन्तु एकघटः अपरघटः द्वितीयघटः इति घटाः यथा एकः घटः तस् तस्यां जात्याम् एका व्यक्तिः तथा एक परमाणु परमाणु परमाणु तस्परमाणुषु एक व्यक्ति अस् सदस्य अस्या छाती सदस्य अस्ट घट अथवा एक परमाणु एककम त्य परमाणु स्थले परमाणु व्यक्त परस्पर भिन्ना अपि च अवयव अवयवपरम्परया घटः आरब्धः सा च परम्परा पटस्य अवयवपरम्परायाः भिन्ना परमाणुव्यक्तयः सन्ति अतः अवयवपरम्परा घटे अवयवपरम्परा पटतः भिन्न भिन्न भवती अग्रे पठितवती खलु घटस्य परम्परा का परमाणुः ज्यनुकं चतुर्णुकं कपालिका कपालः इति हा किन्तु पटस्य तथा अस्ति वा नास्ति खलु घटस्य परमाणुः त्र्यणुकं त्र्यणुकं चतुर्णुकम् अनन्तरं तन्तवः पटः इति अस्ति तर्हि कस्मिन् स्थले भेदः अस्ति परमाणुस्थले अस्ति वा द्वयणुकस्थले भेदः जायते वा इति किम् अथवा आरम्भक घटारम्भकपरमाणवः पटं प्रति कारणं भवितुमर्हन्ति वा इति प्रश्नः अग्रे आयाति एतावता समीचीनमस्ति एतावता अन्येषां अगर किन्तु अधुना इदं वक्तव्यं यत् ये आरम्भकपरमाणवः पटे सन्ति तेषु परमाणुषु पटत्वं नास्ति केवलम् पार्थिवपरमाणवः ते शु तस्मात् ते परमाणवः गटस्य अपि आरम्भकपरमाणवः भवितुम् अर्हन्ति स्म अनेन च घटपटयोः अवयवपरम्पराः कुतः भिन्ना hmm. hmm. इदानीं पुनः वदति तत्र यद्यपि तत्र परमाणु भिन्नभिन्नाः सन्ति परन्तु ये आरम्भकपरमाणवः यथा तत्र घटविषये पटविषये ये आरम्भकपरमाणवः ते पार्थिवपरमाणवः इति वदामः सो so, पार्थिवमित्युक्ते किम् पार्थिवः इत्युक्ते पार्थिवः इत्युक्ते पृथिवी पृथिवी द्रव्यानिष्ट पार्थिवपरमाणवः जलीयपरमाणवः तैजसपरमाणवः इति तत्र भेदः अस्ति तादृशीपरमाणवः पार्थिवपरमाणवः अस्ति पृथ्वीभागः अपि च पटे घटे अपि पृथिभागः अतः पार्थिवपरमाणवः समानः आरम्भिपरमाणवः समानः गयोः अतः तत्र तस्मात् तस्य कारणात् तत्र ये परमाणवः घटस्य अपि च पटस्य ते आरम्भिकपरमाणवः समानः इति भवितुम् अर्हन्ति आरम्भे भवितुम् अर्हन्ति स्म पुनः तत्र प्रश्नः आयाति कथं घटपटयोः अवयवपरम्परा भिन्ना कुत्र आरभ्य भेदः जायते भेद आरब्धः इति प्रश्नः अस्तु उत्तरम् इदं यत् ईश्वर इच्छावशात् तथा भवितुम् अर्हति पटस्य आरम्भकपरमाणवः घटस्य भवितुम् अर्हति स्म परमाणवः सूक्ष्मरूपेण भवन्ति यस्मात् पटारम्भकः वा घटारम्भकः वा इति अस्माभिः न ज्ञायते परमानु परमाणु कीदृशद्रव्यस्य अवयवः स्यात् इति ईश्वर इच्छावशात् निर्णीयते इति स्वीकर्तव्यम् अस्ति एतादृशः सा सार्वत्रिकम् त्रिकत्वम् भव, भवतु नाम अस्तु इत्युक्ते अस्माभिः तु आदौ न ज्ञातुं शक्यते प्रथम सोपाने तत्र एतत् परमाणु पटस्य पटम् पर एतत् परमाणु पटं जायते वा गटम जायते वा इति तु ईश्वर वशात तत्र भवति किमर्थं परमाणवः आम् इति न्यायिकाः वदन्ति किमर्थं चेत् तत् ते सूक्ष्मरूपेण भवन्ति सो वयं तत्र तु न वक्तुं शक्यते अस्मात् परमाणवः तत्र घटं जायते वा पटं जायते वा परन्तु ते बहु सूक्ष्मः सन्ति परमाणवः अतः एतस्य कीदृश अवयवः स्यात् इति केवलम् ईश्वर इच्छावशात् एव तत्र निर्णीयते इति नैयायिकाः स्वी इति अस्माभिः स्वीकरणीयम् इति नैयायिकाः वदन्ति तस्य नामः अस्ति सार्वत्रिकत्वं सार्वत्र hmm. सार्वं hmm. सार्वत्रिकत्वम् इत्युक्ते आङ्ग्ल यूनिवर्सिटि इति चिन्तयतु hmm. अथवा जेनक् आरम्भे भेदो नास्ति इति आरम्भकपरमाणवः पटस्य वा घटस्य भवितुमर्हन्ति आरम्भे अस्माभिः तु न ज्ञायते हा इति अस्ति किन्तु पार्थिवपरमाणवः इति ज्ञातुं शक्नुमः यतोहि घटः पृथ्वीपदार्थाः पटः अपि पुत्रीपदार्थाः तावत् अस्तु किन्तु अन्ततः अवयवे भेदः नास्ति चेत् अवयविनि भेदो अपि न भवति अवयवभेदः कथं सिद्ध्यति अवयवभि अवयव अवयविभिन्नत्वात् अवयवभेदः कार्यवशात् कारणम् अनुमीयते घटः कार्यं पटः कार्यं द्वयोः कार्यं कार्यः कार्यः द्वयोः कार्ययोः भिन्नत्वात् अवयवः भेदः अनुमीयते अत्र वदति यदि अवयवभेदः नास्ति चेत् तत्र अवयवनीभेदः अपि न भव भावे, न भवेत् परन्तु अन्ततो गत्वा तु तत्र भिन्नभिन्नपदार्थाः तत्र सन्ति अवयवभेदः कथं सिद्ध्यति सिद्ध्यति अवयव अवयवी भिन्नत्वात् अवयवभेदः यदा अवयवाः भिन्नाः सन्ति तदा एव वयं वदामः तत्र अवयवी भिन्नः न विपरीतम् अवयवी भिन्नत्वात् अवयवभेदः घटः पटः अवयवी अस्तु घटस्य अवयवः कपालद्वयम् पटस्य अवयवः अवयवित् अवयवभेदः तदेव लिखितम् अवयविभिन्नत्वात् एव अवयवभेदः अवयविभिन्नः अस्ति अतः वयं वदामः अवयवः अपि भे तत्र भेदः भवेत् भिन्नाः स्युः भिन्नाः स्युः कार्यवशात् कारणं अनुमीयते अस्तु अवयवी तु कार्यमस्ति अवयवः तु कारणमस्ति अतः कार्यक कार्यवशात् कारणम् अनुमीयते घटः कार्यं पटः का घटः कार्यः पटः कार्यः द्वयोः कार्ययोः भिन्नत्वात् अवयवभेदः अनुमीयते पदार्थः इदानीं भिन्न कार्यं भिन् कार्यः भिन्नः अतः अवयवः अपि भिन्नाः स्युः इति तत्र अनुमीयते अनुमीयते अनुमानम् अनुमानमस्ति समीचीनम् समीचीनमस्ति अग्रे अग्निमहोदय पठति वा एकं परिच्छेदम् अन्तिमं परिचयत्पर्यन्तम् उपान्तिमम् उपान्ति षष्ठमे पुटे अधुना पुस्तकत्वं घटत्वम् इत्यादिकं किन्तु षष्ठमे पुटे पेज् सिक्स् उपान्तिमं परिचयम् यावत्पर्यन्तं यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाह भिन्नाः इति तावत्पर्यन्तं प्रत्यक्षं प्रमाणं अवयव अवयवभेदार्थं तदेव आश्रित्य अग्रे अनुमानप्रमेण साधयितुं शक्यते परमाणवः अपि भिन्नाः घटपरमाणवः भिन्नाः पटपरमाणवः भिन्नाः इति घट आरम्भकपरमाणवः भिन्नाः घट घट आरम्भक घटारम्भकपरमाणवः भिन्नाः पटारम्भकपरमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तत्वात् एतत् सर्वम् अवलम्ब्य यदि वदामः भेदो नास्ति सच च अनुभवविरुद्धः यतोहि कार्यं भिन्नम् इति जायते अङ्गीक्रियते च तदाधारेण अवयवाः अपि भिन्नाः इति मन्तव्यम् अत्र प्रणमाणु इति समानम् इति उक्तं परन्तु अत्र तादृशमस्ति चेत् कथं भिन्नभिन्नकार्यं भवन्ति घटपरमाणुतः घटं कथं पटपरमाणुतः पटं कथं कर... इति प्रश्ने वदति अतः तत्र भिन्नः इति मन्तव्यम् इति अस्ति अत्र यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नः इति इदानीं घटं पश्यामः चेत् तत्र भिन्ना अस्ति पटं पश्यामः तत्र भिन्नता वर्तते घट पटो न पटो घटना इति तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुमर्हति अवयवभेद भेदार्थं तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम् अर्हति अवयवभेदार्थम् इत्युक्ते अत्र प्रत्यक्षं द्रष्टुं शक्नुमः तत्र भिन्नभिन्न अवयाः सन्ति भिन्नभिन्नकार्याणि सन्ति अतः तत्र भिन्नता वर्तते तदेव परिच्छेदे अनुमीयते इति आसीत् खलु अनुमानं यत्र प्रत्यक्षं कार्यं न करोति तत्र भिन्नप्रमाणेन ज्ञानं जन्यं भवति अत्र प्रत्यक्षेन यत्र प्रत्यक्षेन अस्माभिः ज्ञायते अवयवाः भिन्नाः तावत् पर्यन्तं प्रमाणेन अप्रत्यक्षप्रमाणेन अवयवभेदः अस्ति इति वक्तुं शक्नुमः वक्तुं शक्नुमः प्रत्यक्ष प्रत्यक्षप्रमाणेन एव वक्तुं शक्नुमः तदेव आश्रित्य अनुमानप्रमाणेन साधयितुं शक्यते प्रमाणमपि भिन्नः एतत् प्रत्यक्षप्रमाणम् आधारीकृत्य अनुमानप्रमाणेन वयं साधयितुं शक्यते प्रमाणमपि भिन्नः इति यावत् उद्भूतरूपम् अस्ति तत् प्रत्यक्षेन ज्ञातुं शक्नुमः किन्तु परमाणुस्थले उद्भूतरूपं नास्ति खलु प्रत्यक्षेण ज्ञायते त्रयाणुकात् आरभ्य त्रयाणुकात् आरभ्य प्रत्यक्षं भवति महोदय परमाणुस्य परमाणुसलक्यम् इति ज्ञातव्यं ज्ञातव्यम् अनुमानप्रमाणेन परमाणु घट आरम्भकपरमाणोभिन्न पट आरम्भकपरमाणोभिन्न इति कार्यवशात् कारणम् अनुमीयते सिद्धतत्वात् कार्यवशात् इत्युक्ते अन्तिमपरिणामेव अस्ति घट वा पटवा इति कार्यम् अत्र कारणं कारणमिति परमाणो कारणम् अतः अनुमानेन कार्ये इत्युक्ते प्रत्यक्षे यत् भिन्नता तदेव कारणमे कारणे अपि भवति इति अनुमानं कर्तुं शक्नुमः करणीयम् इत्यस्ति एतत् सर्वमवलम्ब्य यदि वदामः भेदो नास्ति स च अनुभवविरुद्ध यतोहि कार्यं भिन्नम् वयं वदामः चेत् तत्र भिन्नता नास्ति प्रमाणमध्ये इति वदामः चेत् तद् समीचीनं नास्ति किमर्थमित्युक्ते तस्य फलितार्थं यत् कार्यमस्ति तद् भिन्नमस्ति अस्माकं ता प्रत्यक्षं भवति अतः तत्र अवयवाः अपि भिन्नाः इति मन्तव्यम् इति अस्ति कार्यं भिन्नमस्ति चेत् करणानि अपि भिन्नानि आ... भवे भवेयुः इति कारणम् अवयवाः अवयवाः अपि भिन्नाः भवेयुः इति मन्तव्यं स्वीकर्तव्यं समीचीनमस्ति प्रश्नः अस्ति अस्मिन् किञ्चित् सूक्ष्मविचारः अस्ति इतोपि अग्रे तथा एव अग्रे अपि किमपि अस्ति आगामिवर्गे आगा। द्रक्ष्यामः प्रश्नाः न सन्ति चेत् विरमामः अस्तु आगामिवर्गे कस्य किं कस्य क्रमः हेग्डे महोदयस्य भवति भविष्यति खलु अस्तु अस्तु प्रश्नाः न सन्ति चेत् धन्यवादः धन्यवादः नमस्काराः धन्यवादः धन्यवादः